हरिओं श्री सीताचंद्रभ्याम नम अथ श्रीमद्वा युद्ध कांडे षट पंचाश सर्ग हनुमता कंपन से सुमहत कर्म कृत वा नोधमाहारायास युधि तीव्र कंपन क्रोध मूर्छित धुन्वन् परम कर्मुकम् दृष्ट्वा तु कर्मश्रोत्रूणाम् सारथिम् वाक्यमब्रवीत् तत्रैव तावत् त्वरितो रथम् प्रापय सारथे एते बलिनो घ्नन्ति सुबहुन् राक्षसान्वणे एते च बलवन्तो वा भीमकोपास्य वा नः द्रुमशैलप्रहरणा तिष्ठन्ति प्रमुखे मम एतान् ह्यन्तुमिच्छामि समरश्लाघिनो ह्ययम् एतैः प्रमथितम् सर्वम् रक्षसां दृश्य केवलम् तदप्रचलिताश्वेन रथेन रथिताम्बर हरिनभ्यः पत दूरात् शरज्जालये कम्बनः न स्थातुं किं पुनर्योद्धुमाहवे अकम्पन शरीर्भग्ना सर्वम् एवाभिदुद्रुवः तान् मृत्युवचमापन्नान् अकम्पन शरानुगान् समेक्षे हनुमान यातीन् उपतर्थे महावले प्लवगं दृष्ट्वा सर्वे ते प्लवगर्ष भ समेत्य समरे वीरा संवृष्टा पर्यवारयन् व्यवस्थितं हनुमन्तं ते दृष्ट्वा प्लवकर्ष भूर्बलवन्तो हि बलवन्तमुपाश्रितः अकम्पनस्तु क्षैलाभम् हनुमन्तम् अवस्थितम् महेन्द्रैव धराभि वशन्ति ताबाणो भान् शरीरे पतितान् कपिः अकम्पनवधार्थाय मनो ध्रे महबलः स महातेजा हनुमान् मारुतात्मजः अभिरुद्रावतद्रक्ष कम्पयन्निव मेदिनीम् तस्याथः नर्दमानस्य दीप्यमानस्य तेजसा बभूवरूपम् दुर्धर्षम् दिप्तस्येव विभावसो आत्मानम् तु अपहरणम् ज्ञात्वा क्रोध समन्वितः शैलम् उत्पाटयामास वेगेन हरिपुङ्गवः गृहीत्वा सुमहाशैरम् पाणिनैकेन मारुतिः स्वविनद्य मानादम् भ्रामयामास वीर्यवान् ततः तम् अभिरुद्रवे राक्षसेन्द्रकम्पनम् पुराहीन्मुचिम् सङ्ख्ये वज्रेणेव पुरन्दरः अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गम् समुद्यतम् दूरादेव महाबाणै अर्धचन्द्रे व्यदारय तत्पर्वता ग्रमाकाशे रक्षो विदारितं विकीर्णम् पतितम् दृष्ट्वा हनुमान् क्रोधमूर्च्छितः सूक्ष्मकर्णम् समासाद्य रोच दर्पान् वितो हरिः तूर्णम् उत्पाटयामास महागिरिम् विवोच्छ्रितम् सङ्गृहीत्वा महास्कन्धम् सूक्ष्मकर्णम् ्रमया संयुगेन बरसा हनुमान परमक्रुध चरण दारयी गजा च गजारोहां सरथान रथिन सदा जघान हनुमान धीम राक्षति तम् अन्तकम् व्यवक्रुद्धम् तद्रुमम् प्राणहारिणम् हनुमन्तम् अभिप्रेक्ष्य राक्षसा विप्रदु द्रुवुः तम् आपतन्तम् संक्रुद्धम् राक्षसानाम् भयावहम् ददर्शायकम्पनो वीरे चुक्षोभश्च ननाद च स चतुर्दश बीर्वाणै देहधारणै निर्विभेद निर्विभेद महावीर्यम् हनुमन्तम् अकम्पनः स तथापि प्रकीर्ण तु नाचैषितशक्तिभिः हनुमान् ददृशे वीर प्ररूढयैव सान्मान् वीरराजय महावीर्यो महाकायो महाबलः पुष्पिताशोकसङ्काशो धूम इव पावकः ततोऽन्यम् वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् शिरस्याभीजघानाशु राक्षसेन्द्रमकम्पनम् स वृक्षेण हतस्तेन सक्रोधेन महात्मन राक्षसो वा नरेन्द्रेण पपात च ममार च तं दृष्ट्वा भूमौ राक्षसेन्द्रं न कम्पनं व्यथिता राक्षसा सर्वे क्षितिकम्पैव द्रुमः त्यक्त सर्वे राक्षसास्त्रे पराजिताः लङ्कामभि ययुस्रासात् वानरै तै अभिद्रुताय ते मुक्तकेशाः सम्भ्रान्ताय भग्नमाना पराजिताः भयाश्रमाजलै रङ्गै प्रस्रवद्धि विदद्रुः अन्योन्यम् ये प्रमथ्नन्तो विविशुर्नगरम् भयत् वृक्षतस्ते तु सम्मूढा प्रेक्षमाणा मुहुमुहुः तेषु लङ्काम् प्रविष्टेषु राक्षसेषु महाबलः समेत्य हरये सर्वे हनुमन्तम् अपूजयन् सोऽपि प्रवृद्धस्तान् सर्वान् हरिन् सन्तृत्य संप्रत, पूजयेत् हनुमान् सत्त्वसम्पन्नो यथार्हम् अनुकूलतः विनेदुश्च यथा, विने यथा प्राणम् हरयोजितकाशिनः चक्रुषुश्च पुनस्तत्र स प्राणानेव राक्षताम् स वीरशोभाम् अभन् मेत रक्षांसि निहत्य मारुती महास्वरं भीमममित्रनाशनम् विष्णुर्यथैव उर्वलं च मुमुखे अपूजयन् देवगणा तदा च रामोतिबलश्च लक्ष्मणै तथैव सुग्रीवमुख प्रवङ्गमाय विभीषणैश्चैव महाबलसदाय इत्याशे श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे षट् पञ्चाश सर्गे श्रीसीतारामचन्द्रार्पणमस्तु